परमात्मनि नमः अथ कैवल्योपनिषद् ॐ गुरुभ्यो नमः हरि ओह न भवतु शह नो भुनक्तु शहवीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः हरि ओ अथ कैवल्युपनिषद् प्रथमः खण्डः हरिवो यथा स्वलायनो भगवन्तं परमेष्ठिन्मुप्सामेत्योवाच अधीः भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् यथा चिरात सर्वपापं व्यपोह्य परात् परं पुरुषं याति विद्वान् तस्मै सहोवाच पिता पितामहश्च श्रद्धा भक्ति ध्यान न कर्मणा न प्रजाधनिना त्यागे नैके अमृतत्वमानशुः परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ब्रह्म लोकेशुरा पी मुच्यं शर्वे विविदेश सुखासनस्थ शोचि सग्रीवशी शरीर अंत्याश्रमस्थ सकले्रिया भक्त्या स्वगुरुं प्रणम्य हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशतं विशोकम् अचिन्त्यमव्यक्त्यमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् मादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षीं तमसः परस् स ब्रह्म सशिवः शेन्द्रः सोऽक्षरः परमश्वरा स एव विष्णुः सप्राणः सकालोऽग्निः सचन्द्रमाः स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ज्ञात्वात् स्योमत्येति नान्यः पन्था विमुक्तये सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि सम्पश्यन् ब्रह्मपरमं याति नान्येन हेतुना आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ज्ञाननिर्मथनाभ्यासात्पापं दहति पंडितः स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् स्त्रियन्नपानादिविचित्रभोगैः स एव मेति स्वने सजीव सुखदुखभोक्ता स्वया कल जीवलोक सुषुप्ति सकले विली तमोत सुखमेतीनश जन्मकर्मयोगा सीवस्वी प्रबुद्ध पुत्रये क्रीडति यश्च जीवस्ततस्तु जातं शकलं विचित्रम् आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च वायुर्ज्योतिरापश्च पृथिवी विश्वस्य धारिणी यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् सूक्ष्मात् सूक्ष्मतरं नित्यं स त्वमेव जाग्रत्स्वप्न सुसुप्त्यादि प्रपञ्चं यत् प्रकाशते तद्ब्रह्माहमेति ज्ञात्वा सर्वबन्धैः प्रमुच्यते त्रिषु धामसु यद्भोग्यं भोक्ता भोगस्य यद्भवेत् तेभ्यो विलक्षणः साक्षि चिन्मात्रोऽहं सदाशिवः मयि शकलं जातं मै सर्वं प्रतिष्ठितम् मै सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् इति प्रथमः खण्डः अडोरळीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् पुरातनोऽहं पुरुषोऽहमीशो हिरणमयोऽहं शिवरूपमस्मि अपाणिपादोऽहमचिन्तशक्तिः पश्याम्य चक्षुः स श्रि डोम्य कर्णः अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाहम् वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदिव चाहं न पुण्यपापी मम नास्ति नाशो ना ना ना च एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् समस्तसाक्षीं सद्सद्विहीनं प्रयाति शुद्धं परमात्मरूपम् यः शतरुद्रीयमधीते सोऽग्निपूतो भवति स वायुपूतो भवति स स स स आत्म पूतो सुरा पानात पूतो पूतो पूतो आत्मपूरा पू्रह्मणस्तेया सकताकूत तस्मा विमुक्त आश्रितश्रमी सर्वदा सक्रजपी अनेन ज्ञानमाप्नोति संसारार्वनाशनम् तस्माद्देवं विदित्वैनं कैवल्यं पदमश्नुते कैवल्यं पद्मश्नुत इति द्वितीयः खण्डः हरि ओ शहनावतु शहनो भुनक्तु शहवीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः हरिः ओ कृष्णयजुर्ेदीय कवल्योपनिषत्सा